अनः त्र्यशीतितमः सर्गः ततः समुत्थितः कल्यमास्थायस्यन्दनोत्तमम् प्रययो भरतः शीघ्रम् रामदर्शनकाम्यया अग्रतः प्रयजोस्तस्य सर्वे मन्त्रिपुरोहिताः अधिरुह्यः नैर्युक्तान् रथान् सूर्यरथोपमान् नवनागसहस्राणि कल्पितानि यथाविधि अन्वयोर्भरतम् यान्तमिक्ष्वाकुकुलनन्दनम् षष्टीरथसहस्राणि धन्विनो विविधायुधाः अन्वयोर्भरतम् यान्तम् राजपुत्रम् यशस्विनम् शतम् सहस्राण्यश्वानाम् समारूढानि राघवम् अन्वयुर्भरतम् यान्तम् राजपुत्रम् यशस्विनम् कैकेयी च स्वमित्रा च कौसल्या च रामानयन सन्तुष्टा यजुर्यानेन भास्वता प्रयाताश्चार्यसङ्घाता रामम् द्रष्टुम् स लक्ष्मणम् तस्यैव च कथाश्चित्रा कुर्वाणाहृष्टमानसाः मेघश्यामम् महाबाहुम् स्थिरसत्त्वम् दृढव्रतम् कदा द्रक्ष्यामहे रामम् जगतः शोकनाशनम् दृष्ट एव हि नः शोकमपनेष्यति राघवः तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः इत्येवम् कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः परिष्वजानाश्चान्योन्यम् ययुर्नागरिकास्तदा ये च तत्रापरे सर्वे सम्मता ये जनैगमाः रामं प्रत्ययुर्हृष्टाः सर्वाः प्रकृतयः शुभाः मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः सूत्रकर्मविशेषज्ञा ये च शस्त्रोपजीविनः मायूरका क्राकचिका च गन्धोपजीविनः सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः स्नापकोष्णोदका वैद्याधूपकाः शौण्डिकास्तथा रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः शैलूषाश्च सहस्रेभिर्यान्तेकैवर्तकास्तथा समाहिता वेदविदो गोरथैर्भरतम् यान्तमनुजग्मुः सहस्रशः सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपिनः सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः प्रहृष्टमुदिता सेनासान्वयात्कैकयीसुतम् भ्रातुरानयने यातम् भरतम् भ्रातुवत्सलम् ते गत्वा दूरमध्वानम् समासे दुस्ततो गङ्गाम् शृङ्गवेरपुरम् प्रति यत्र रामसखावीरो गुहो ज्ञातिगणैर्वृतः निवसत्यप्रमादेन देशम् तम् परिपालयन् उपेत्यतीरम् गङ्गायाश्चक्रवाकैरलङ्कृतम् यवतिष्ठत सा सेना भरतस्यानुयायिनी निरीक्ष्य अनुष्ठिताम् सेनाम् ताम् च गङ्गाम् शिवोदकाम् भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः निवेशयत मे सैन्यमभिप्रायेण सर्वतः विश्रान्ताः प्रतरिष्याम स्वयि माम् सागरङ्गमाम् दातुम् च तावदिच्छामि स्वर्गतस्य नदीम् तस्यैवम् ब्रुवतो मात्यास्तथेत्युक्त्वा समाहिताः न्यवेशयम्स्ताम् छन्देन स्वेन स्वेन पृथक् पृथक् निवेश्य गङ्गामनुताम् महानदीम् चमूम् तदा महात्मनो विचिन्तमानो भरतो निवर्तनम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अयोध्याकाण्डे त्र्यशीतितमः